अथ अष्टमोऽध्यायः नारद उवाच कथयिष्ये सभां यां यां युधिष्ठिरनिबोधतां वैवस्वतस्य यां पार्थ विश्वकर्मा चकारः तैजसी सा सभा राजन् बभूवशतयोजन पाण्डवा अर्कप्रकाशाभाजिष्णुः सर्वतः कामरूपिणी नातिशीता न नशोको शोको न क्षुत्पिपासे न चाप्रियं च नचा दैन्यं क्लमो वापि प्रतिकूलं न चाप्युता सर्वे कामास्थितास्तस्यां ये दिव्याये ये च मानुषाः प्रभूतं च भक्ष्यं भोज्यमरिन्दमा लेह्यं चोष्यं च पेयं च हृद्यं स्वादुमनोहरं पुण्यगन्धास्रजस्तस्य नित्यं कामफलाद्रुमाः रसवन्ति च तो यानि शीतान्युष्णानि चैव हि तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोमलाः यमं वैवस्वतं ताता प्रहृष्टाः यया ययातिर्नहुशः पूरुर्मान्धाता सोमको नृगः त्रसद्दस्युश्च राजर्षिः कृतवीर्यश्रुतश्रवाः अरिष्टनेमिः सिद्धश्च मत्स्यः प्रतर्दनशिबिर्मत्थुलाक्षो वार्तो वर्त कुकुशिक सांकाश्य सांकृति